ओ ध्यायामो धां तु विलोकिनीं भगवतीं स्थितश्रीमसीं वासन्यां अमृतवर्षिणीं सुमधुरम् संकीर्तनालापिमांज आनन्दात्मिकांश्वरीरेश्वरी नमः गणपतिमहे कविम् कविम् वामश्रवस्तमम् श्रीशराजम् ब्रह्मणाम् ब्रह्मणस्ततानशम्बन्धुरिकीडसाधनम् ॐ श्रीमहागणपतये नमः मेधा सन् टुगेदर् प्रक्टीस् इण्डिविज्य दीथिङ्ग् लर्न् प्राब्लिम् अन्त What was I chanting first? Pardon? What was I chanting first? I didn't get that. Medhas Bhukta. The same thing we learnt last time. Okay, Medhas Bhukta. Okay, Medhas Bhukta. Yes, we will do it together once, then individually we will practice. Okay? Okay. Okay. Everybody ready? Yes. Watch the page now. for one one on your mantra pushpa it's uh, your mantra pushpa 411 okay oh metasuptan okay okay okay still okay this is what we learned last time oh yeah thank you yes yeah, yeah. nothing new okay right now there's not the new one it's a old one mm. रेडि रेडि ओके वन् टु त्री ॐ यश्चन्दसा मृषभूविश्वरूपः चन्दे यमृता आ सम्बभूवीब्रो मीडया आशृणोतु त्येवधारणोभि यासम् शरीरम् मे विचर्षणम् मे मधुमत्तमाकरणाव्याम् भूरिविश्रुवम् ब्रह्मणकोषोऽसि मेदयापि हितः गोपाय ॐ शान्तः ॐ वें मेदा देहीजुषमाणा न आगा आ विश्वाचिभद्रासु मनस्यमाना त्वया त्वया जुष्टा निदमाना भुरुक्ता बृहत्म धीरम् विदते सुवीरा त्वया जुष्टषिर्भवति देवि त्वया ब्रह्म गतश्री कृत त्वया न्दते असुसोसानो यशस्वद्रविनो न मेदे मेधाम् म इन्द्रो ददातु मेदाम् देवी सरस्वती मेदामे अश्विना भुवा वा दत्ताम्ब अक्षरासु चया मे दा गन्धर्वेषु जयन्मनः दै ईम् मेदा सरस्वति सामा मा आम् वेदासुरभिर्विश्वपा हिरण्यवर्ण्या जगती जगम्या पूर्जस्वती पिन्वमाणा सा मा आम् वेदा सुप्रतीकाजुषन्ताम् मयि मेधाम् मयि यि अग्निस्तेजो मयि प्रजां मयि इन्द्र इन्द्रियम् ददातु मयि मेधां मयि प्रजां राजो ददातु य धीमहि शान्ति शान्तिः ब्रेक् इन् वन् वीक् small. ओम् यश्चन्दसामृषभो विश्वरूपः छन्दोभ्योत्यमृता आप्बभूव न्द्रो मेदया आपृणोतु अमृतस्य देवधारणो भूयासम् अमृतस्य शरीरम् मे विचर्षणम् जिह्वा मे मधुमत्तमा कर्णा आभ्याम् भूरिविश्रुवम् ब्रह्मण कोशोऽसि मेधया पिहितः पिहितः श्रुतं मे गोपाय शान्ति शान्ति शान्तिः ॐ मेधा देवी जुषमाणा न आगा आ विश्वाचि भद्रासुमनस्यमाना त्वया जुष्टानुदमाणा धुरुक्ता आम् बृहत्वधीम ीरा आ त्वया जुष्टा ऋषिर्भवति देवि त्वया ब्रह्म गतश्री ऋत त्वया ओके त्वया त्वया ब्रह्मगदश्रीरुतत्वया आया जुष्टश्चित्रम् विन्दते त्वया जुषस्व द्रविनो वसुसानो मेदे मेदाम् म इन्द्रो ददातु मेधाम् देवी सरस्वती मेधां मे अश्विना भुवा वादत्ताम् पुष्करस्रजा अप्सरासु चया मेधा दैवी ईं मेदासरस्वती सरस्वती मेदासुरबिर मा आमा आं मेधासुरभिर्विश्वरूपा हिरण्यवर्णा जगती जगम्या ऊर्जस्वती पयसा पिन्वमाणा सा मा आम् मेधासुप्रतीकाजुषन्ताम् मयि मेधां मयि प्रजां मयि अग्निस् तेजो ददातु मयि मेदां मयि प्रजां मयि इन्द्र इन्द्रियम् ददातु मयि मेदाम् मयि प्रजां मयि सूर्योब्राजो ददातु ॐ हंसहंसाय विद्महे परमहंसाय धीमहि तन्नो हंसः Atu. Om shanti, shanti, shanti. Very good very well ओम् शान्ति शान्ति शान्तिः वेरि गुड् वेरि गुड् अस् दे सेटिङ्ग् दु समू वि मेधा इस् आन्दृषो विश्व भूव समेंद्रो मेथया आस्तृणोतु अमृतस्व अमृतस्य देवधारणो भूयासम् शरीरम् मे विचर्षणम् जिह्वा मे मधुमत्तमा कर्णा आभ्याम् भूरि विश्रुवम् ब्रह्मण श्रुतं मे गोपाया ॐ शां दिशां दिशाम् भिः ॐ मेधा देवी जुषमाणो न आगा आतिश्वाजि भद्रा सुमनस्यमाना त्वया जुष्टानुदमाना दुरुक्त्वा आन् बृहत्वदेम विदधे सुवीरा आहा त्वया जुष्टत्रिषु भवति देवि त्वया ब्रह्मा गतश्रीरुत त्वया आया जुष्टित्रम् विन्दते वसुसानो जुष्वस्स द्रविणो देवी सरस्वती मेधां मे अश्विनावुथा वाधस्तां पुष्करसजा अप्सरा सुया मेधा गन्धर्वेषु चयन्मनः देवी ऐं मेधा सरस्वती सा मा आं मेधा सुरभिर्जुषतागं स्वाहा स्वाहा आ स्वाहान् स्वाहा आमा आं मेधा सुरथर्विश्वरूपा हिरण्यवर्णा जगति जग जगती जगन्या वर्चस्वती पयसा पिन्वमाना सा मा आं मेधा सुप्रतीका ुषन्ताम् मयि मेधां मयि प्रजां मयि यक्मिस्तेजो दधातु मयि मेधां मयि प्रजा मयिन्द्र इन्द्रियं दधातु मयि मेधां मयि धीमहि तन्नोहं सप्चोदयाद ॐ शान्ति शान्ति शान्तिः वेरि गुड् शान्तिः मेनि टैम् बट् इस् शुड् गो ॐ शान्ति शान्ति शान्तिः The last tihi is up, the other two tihi is bottom. But it is followed by a sakara, so you can say shantish. Om Shanti yeah. Shanti Shanti Shanti Om Shanti Shanti Shanti Shanti Correct. Yeah. so that this sharga will become a shakara sound that the first two the last one says sri only okay so but upon it i can't but i can get it yeah no that's fine but uh, you have heard it many times but the thing is you don't pay attention because you are not learning like that but uh, now if you listen to the swami ji or somebody saying it you will say that that's how they say it. they won't make that yeah. mistake <laughs> yeah but that's we have been learning that the further it's like automatic dayashant shashidan shantihi ॐ यश्चन्दसा मृषभो विश्वरूपः छन्दोभ्योऽध्यमृता आत्सम्भूव समेन्द्रो मेधया आपृणोतु अमृतस्य देवधारणो भूयासं शरीरं मे विचर्षणम् जिह्वा मे मधुमत्तमा कर्णा आभ्याम् भूरिविश्रुवम् ब्रह्मणः कोशोसि मेधया पिहितः श्रुतम् मे गोपाय ॐ शान् ॐ तिश्षान, मेधा देवी जुषमाणा आगा आ द्विश्वाची भद्रा सुमनस्यमाना त्वया जुष्टानुदमाना दुरुक्तान् बृहद्वदेमविधते सुवीरा आ त्वया जुष्टि त्वया जुष्टऋषिर्भवति देवी त्वया ब्रह्मागतश्रीरुतत्वया आया जुष्टश्चित्रम् विन्दते वसुसानो जुषस्वद्रविणो मेधे मेधाम इन्द्रो ददातु मेधाम् देवी सरस्वती मेधाम् मे अश्विनाबुभा बाधत्ताम् पुष्करस्रजा अप्सरा सु मेधा गन्धर्वेषु च यन्मनः दैवी मेधा सरस्वती सा मा मेधा सुरभिर्जुषतागस्वाहा आ आ मा आम् मेधा सुरभिर्विश्वरूपा हिरण्यवर्णा जगति जगम्या ऊर्जस्वती पयसा पिन्वमाना सा मा आम् मेधा सुप्रतीका जुषन्ताम् मयि मेधाम् मयि प्रजाम् मयग्नि तेजो दधातु मयि मेधाम् मयि प्रजाम् मयीन्द्र इन्द्रियम् दधातु मयि मेधाम् मयि प्रजाम् मयि सूर्योभ्राजो दधातु ॐ हंसहंसाय हमसा विद्महे परमहंसाय धीमहि तन्नो हंसः प्रचोदयात् ॐ शान्तिः वेरि गुड् गायत्रीत्रै ॐ यत् छन्दसाध्यो विश्वरूपः छन्दोभ्योऽबभूव समेन्द्रो मेधया स्मृणोतु अमृतस्य देवधारणो भूयासं शरीरं मे विदर्शनं जिह्वा मे मधुमत्तमा कर्णाभ्याम् भूरिविश्रुवं ब्रह्मणः कोशोऽसि मेधया पिहिदश्रुदं मे शान्ति शान्ति शान्तिः ॐ मेधा देवी जुषमाणा न आगा विश्वाभि विश्वाजी भद्रासुमनश्यमाना त्वया दुष्टानुदमान दुदुक्तान् बृहद्वदेम विदधे सुवीरा त्वयिरा आहा त्वया दुष्टऋषिर्भवदि देवि त्वया ब्रह्मा गदश्रीरुद त्वया त्वया दुष्टच्छित्रं बिन्ददेव सुषस्व द्रविणो न मेधे मेधां म इन्द्रो ददाधु दधाधु मेधां देवी सरस्वती मेधा मे अश्विना वुहा वा धत्ताम्बुष्करस्रजा अप्सरा सुया मेधा गन्धर्वेषु च इन्मना यन्मनः दैवीं मेधा सरस्वती सा मां मेधा सुरभर्जुषदा ग स्वाहा duravet jyotadagaswaaha duravet jyotadagaswaaha ama ammedhasura bharmisva dupa kiranya varna jagadi jagamya undas sudhi vaiasa pinvamana saama ammeda सुप्रदीगा जुषन्तुषन्तां मयि मेधां मयि प्रदां मयि अग्निश्चेजो दधातु मयि मेधां मयि प्रदां मयीन्द्र इन्द्रियं दधातु मयि मेधां मयि प्रदां मयि सूर्यो वाजो दधातु ॐ हंस हंसाय विद्महे परमहंसाय भीमहि तन्नो हंस प्रचोदयात् ॐ शान्ति शान्ति शान्तिः वेरि गुड् गो नेक्स्ट् ओके गुड् शाजि ॐ यश्चन्दसामृषभो विश्वरूपः छन्दोभ्यो व्यमृतात् सम्बभूव समेन्द्रो मेधया कृणोतु अमृतस्य देवदारणो भूयासम् चरीरं मे विजर्षणम् जिह्वामी मधुमत्तमाम् कर्णाभ्याम् भ्रमण कोशोऽसि मेधया पिहितः कृतं मे गोपाया ॐ शान्ति शान्ति शान्तिः ॐ मेधादेवी जुषुमानान आगादिश्वाचिभद्रा सुमनस्यमाना त्वया जुष्टा सुदमाना दुरुक् बृहद्वदेम विदते सुवीरा त्वया जुष्टवदि देवी त्वया ब्रह्मा गदश्रीरुत त्वया त्वया जुष्टया त्वया जुष्टश्चित्रम् विन्दते वसु तानो जुषस्य द्रविणो न मेदाम इन्द्रोदतादु मेदां देवी सरस्वती मेधामे अश्विनावुभावदत्ता बाव, पुष्करस्रजा अप्सरासु चया मेधा गन्धर्वेषु चयन् चयन्मनः दैवीं मेधा सरस्वती स, मां मेधा सुरभिजुषताग् स्वाहा आ मां मेधा सुरभिर्विश्वरूपा हिरण्यवर्णा जगदि जगम्याम् ऊर्जस्वति पयसा पिन्वमाना पयसा दीर्घ ऊर्जस्वती पयसा ऊर्जस्वती पयसा पिन्वमाना मा आं मेधा सुप्रतीगाजुषन्ताम् मयि मेधां मयि प्रजां मयग्निस्तेजो ददातु मयि मेधां मयि प्रजां मयीन्द्र इन्द्रियम् ददातु मयि मेधां मयि प्रजां मयि सूर्यो भ्राजो ददातु ॐ हंसहंसाय हम्सा विद्महे परमहंसाय धीमहि तन्नो हंसप्रचोदयात् ॐ शान्ति शान्ति शान्तिः वेरि गुड् ऐ केन् गो हरि ओके यश्चन्दसामृषभो विश्वरूपः छन्दोभ्योऽधमृता आत्सम्बभूव समेन्द्रो मेधया आस्पृणोतु अमृतस्य देवधारणो भूयासम् शरीरम् मे विचर्षणम् जिह्वा मे मधुमत्तमा कर्णा आभ्याम् भूरि विश्रुवम् ब्रह्मणः कोशोऽसि मेधया पिहितः श्रुतम् मे गोपाय ॐ शान्ति शान्ति शान्तिः ॐ मेधादेवीजुषमाणान आगा तिष्वाची भद्रा सुमनस्य माना त्वया जुष्टा नुतमाना दुरुक्ता आन प्रहद्वते मविदथे सुवीरा आह त्वया जुष्ट शिशिर्भवदि देवि त्वया ब्रह्मा गदश्रीरुद त्वया त्वया जुष्टश्चित्रम् विन्दते वसुसानो जुष जुषस्वद्रविनो न मेधे मेधाम् इन्द्रो ददातु मेधाम् देवी सरस्वती मेधां मे अश्विनावुफावाध पुष्करश्रजा अप्सरा सुचया मेधा गन्धर्वेषु चयन्मनः धैरी ईं मेधा सरस्वती सामा सुरभिर्जुषतागस्वाहा आमा आं आम मेधा सुरभिर्विश्वरूपा हिरण्यवर्णा जगति जगम्या ऊर्जस्वती पयसा पिन्वमाना सा मा आम् मेधा सुप्रतीका जुषन्ताम् <laughs> मयि मेधां मयि प्रजां मयि अग्निस्ते ज्योदधातु मयि मेधां मयीन्द्र इन्द्रियं दधातु मयि मेधां मयि प्रजां मयि सूर्यो प्राजोदधातु ॐ हंस हंसाय विद्महे परमहंसाय धीमहि तन्नो हंसः प्रचोदया आत ॐ शान्ति शान्ति शान्तिः वेरि गुड् ॐ यच्छन्दसा मृषभो विश्वरूपमृताम्बभूग मेन्द्रो मेधया शृणोतु अमृतस्य देवधारणो भूयासम् शरीरम् मे विचर्षणम् जिह्वा मे मधुमत्तमा कर्णाभ्याम् भूरिविष्पुवम् ब्रह्मणः कोशोऽसि मेधया पिहितः सुतम् मे गोपाय शान्तिान्ति शान्तिः ॐ शान्ति मेधा देवी माना आगा भत्रा जुषमाणान आदा विश्वाचीभत्रासुमनस्यमाना त्वया जुष्टानुदमाना दुरुक्ताम् बृहत्वदेमविदधे सुवीराः त्वया जुष्टऋषिर्भवति देवी त्वया ब्रह्मा गतश्रीकृत त्वया त्वया विन्दते वसुसानो जुषस्व द्रविणो न मेधे मेधाम ददातु मेधाम् देवी सरस्वती मेधाम्ब दे मेधां मे अश्विनावुभावा दत्ताम् पुष्करस्रजा अप्सरासु मेधा गन्धर्वेषु च यन्मनः दैवीये मेधा सरस्वती सा मा मेधासुरभिर्जुषदाघ आमा आम मेधा मा मेधासुरभिर्विश्वरूपा हिरण्यवर्णा जगती जगम्या ऊर्जस्वती पयसा पिन्वमाना सा माम् मेधासुप्रतीकाजुषन्ताम् मयि मेधाम् मयि प्रजाम् मयि अग्निस्तेजोदधातु मयि मेधाम् मयि प्रजा मयीन्द्र इन्द्रियं दधातु मयि वेदां मयि प्रजां मयि सूर्यो भ्राजो दधातु ॐ हंस हमसा हंसाय विद्महे परमहंसाय धीमहि तन्नो हंसः प्रचोदयात् ॐ शान्ति तिशान्ति शान्तिः वेरिगुड् एल् Okay, so i mean when you chant you you feel happy then you know you are doing it well okay so i think that's what i feel from everybody thanks to you <laughs> yeah. all, no, all nice. your blessings ary no no it's all uh, the your effort right i'm just a coach so you guys have played in the game so <laughs> yeah only if you have a good coach we can learn exactly <laughs> no the thing is you will know the result right if you are chanting and if it gives you peace then you know you are doing it well if it gives you stress then it's not right that's all <laughs> so yeah. Least, yeah we get a little bit of confidence i was always kind of you know scared but now i'm getting a little more confidence yeah i think that is what happened right so once you start practicing more then you'll be more relaxed and it will come automatically it will come Uh, and then, then you start enjoying it. After a while, you know, you just you see when you hear the chant itself, it puts you in a different uh, frame of mind. That's what happens to me. I don't know about other people. I just think that happens to everybody. Okay, so, and the, the chant happens, and after a while, it uh, quietens your mind, and you get more peace. Okay, so let us uh, learn... Uh, um, See, there are two things that uh, will take a little bit of time. One is Devi Suktam. Devi Suktam is actually from Rig Veda. So the thing is, uh, um, I have to uh, relearn it because uh, I didn't learn the Rig Veda. So um, then I talked to uh, uh, Setu in Asana. He said he learned the uh, um, Rig Veda. For, uh, he learned the Ayurveda first, then only he learned the Rig Veda. Okay? And the same thing with the... Uh, um, the other one. So those two uh, we will do Hirenegarba okay. Supram. That is also from Rig Veda. Yeah. It's a little bit different from what we have learned because the Swaras there are little different. So we will do the Antra uh, Pashtram and then we will learn the other ones. I need more practice to myself I have to learn those things before I can teach. So... <coughs> So the Mantra Pashpam, if you have it, let me know if you don't have it. It's uh, on page 446 of the Mantra Pashpam book, but, but if you don't have that book, if you haven't downloaded it, let me know. It uh, should be on viknyanam.org as well. Everybody has the text? Yes. Mm -hmm. Yeah. we'll do the um, shanti mantra mars on the beginning then go to the yopam Prash uh, veda this mantra vishnu is usually chanted at the end of any puja so you would have heard it a lot of the people don't chant the whole thing they'll just chant the first paragraph okay but in most cases that uh, in the is a longer puja or something like that you chant the whole thing so we will learn the whole thing but if uh, some people only chant the first paragraph you will not okay so um, sometimes then the end they don't chant the uh, shanti mantra because shanti mantra normally what comes at the beginning when you chant gadabadi uh, otherwise krishna marsod the same thing so we have learned it before but we learn it from what time okay it starts with badram karne vishuniyaam deva okay okay द्रम् कर्मेवाः भद्रम् कर्मेवाः ॐ भद्रम् कर्मेण्यामदेवाः भद्रम् पश्ये माक्षभिर्यजत्राः Phajram Pashyema Shabir Yajatra Phajram Pashyema Shabir Yajatra Phajram Pashyema Shabir Yajatra We have learned it before, right? Yes. Or no? Sounds familiar. <laughs> I was but, not there when you talked about it. Correct. Hmm. Because I just thought we learned it first, so if you haven't, then we'll go a little slower, okay? Mm -hmm. uh, let me say we will... Uh, I thought we learned, that's why I was... Uh, okay. Last year, July, I think you took the... Yeah, the, the Ganapati Ataravas. Ganapati Ataravas. The... <laughs> Ganapati Atarashishnam, yes, it comes, right? 160. Yes, the first part. भद्रे yeah. अक्षत्रा so अक्षभिर्यजत्रा अक्षभिजत्रा विल् पुट् इट् टुगेदर् के भद्रं पश्ये मा क्षभिर्यजत्राः भद्रं पश्ये माक्षभिर्यजत्रा जे स्थिरैरङ्गैः स्थिरैरङ्गै स्थिरैरङ्गेः तुष्टवाहम् शुशु त्ववाहुं शुशु त्ववाहुं सस्तनुभिः सस्तनुभिः सस्तनुभिः ने पुटे डोगद श्रेरंगैः विकमंगैःस्तुश ओके दैट विसर्ग बिकम सकारा so so that is the the only difference, so, we will try to put it together, the, the words are okay, right? Okay? right? स्थिरैरङ्गैः स्थिरैरङ्गैः स्तुष्टः ङ्गै वागु सेट् नोट् गु बट् गम् ओके इट्स् इटल् डिफरेट् सो तिरैरङ्गै स्तुष्ट वागं विवागम् ओके गा उम् ओके नोट् गा गुम् okay just a slight difference you know, sometimes when you say it, it sounds like gum but mostly it's gum ga okay. gu -um. gum um is a little difficult to say but <laughs> that's what it is tirai <laughs> si rangai stushta vagam sastanu bihi tirai si rangai stushta si si vagam um, sastanu bihi tirai si rangai व्यशेमदेवहितम् व्यशेमदे वहितं व्यशेमदेवहितं यदायुः यदायुः यदयुः स्वस्ति न इन्द्रो इन्द्रो स्वस्ति न, न दिक्यान्यु दिक्यान्यु इन्द्रो वृद्धश्रवाःश्रवाः वृद्धश्रवाः स्वस्ति न इन्द्रो वृद्धश्रवाः स्वस्ति न इन्द्रो वृद्धश्रवाः स्वस्ति इन्द्रो व्रदश्रवाः स्वस्ति नः पूषा स्वस्ति नूषा स्वस्व पूषा विश्ववेदाः विश्ववेदाः विश्व विश्ववेदा स्वस्ति नः पूषा विश्ववेदाः पूषा पूषा विश्वदेवा स्वस्ति नः पूषा विश्वदेवाः किमपि देवाः विश्ववेदाः ूषा विश्ववेदाः ओके नोट् देवाः वेदाः ओके स्वस्ति नस्तार्क्ष्यो नो स्वस्ति नस्तार्क्ष्यो अरिष्टः स्वस्ति नस्तार्क्ष्यो अरिष्टः स्वस्ति नस्तार्क्ष्यो अरिष्टनेः स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः ृहस्पतिर्दधातु बृहस्पतिर्ददातु बृहस्पतिर्ददातु स्वस्ति नो बृहस्पतिर्दधातु स्वस्ति बृहस्पतिर् ददातु स्वस्ति बृहस्पतिर् दधातु ॐ शान्ति तिशान्ति तिशान्तिः ॐ शान्ति शान्ति तिशान्ति शान्तिः ट्रै दिस् वन् Is is that that, uh, everybody okay Okay, okay? okay? with it? Shall we uh, do do the the whole thing? Yeah. Yeah. Okay, I'll do yeah. once, you guys repeat twice, okay? From the beginning Om Om Shanti Shanti Shanti, okay? mm -hmm. <laughs> Om Karne होल् थिङ्ग् कर्णेभिष्णुयामदेवाः भद्रं पश्ये माक्षभिर्यजत्राः स्थिरै रङ्गै स्तुष्टवादं व्यह्येम देवहितं यदायुः स्वस्ति न इन्द्रो वृद्धश्रवाः स्वस्ति नः पूषा विश्ववेदाः स्वस्ति नः अरिष्टनेमिः स्वस्ति बृहस्पतिर्दधातु शान्ति तिः शान्ति थिः शान्तिः ॐ भद्रम् करो भद्रं शृणयाम देवाः पश्येमा अक्षिभिर्जत्रानुः वहितम् यदायुः स्वस्ति न इन्द्रो वृद्दर्शवाः स्वस्ति नस्तपोषा विश्ववेदाः ो हरिष्टः नोहस्पतिर्दधातु ॐ शान्तिशान्तिशान्तिः द्रम् कर्णेभिष्णुयाम देवाः ॐ भद्रम् कर्णेभिष्णुयामदेवाः भद्रम् पश्येमा अक्षिभिर्यजत्राः गिरैरङ्गेष्टुवाकुं स्वस्तनूभिः व्यशेन देवहितं यदायुः स्वस् न्द्रो पृद्विष्टाः स्वस्ति नः स्वस्ति नस्ताक्षो अरिष्टनेः नस्ताक्षस्यो अरिष्टः स्वस्ति नो बृहस्पतिर्दधातु Om, om shanti shanti shantihi shanti, shanti. so who wants to uh, is it okay for everybody the whole thing that shanti mantra yes yeah. yes yeah. yeah. yeah, because it comes in many places okay so that's why we should get yeah. it right so we can uh, there's more mileage from this yes yeah. so who wants to try it on their own you can try okay go ahead ॐ mm -hmm. भद्रम् कर्णेभिः शृणुयामदेवाः भद्रम् पश्येमाक्षफल्यजत्राः स्थिरैरङ्गै सुष्टुवागुं सुस्तनूभिः यशेम देवहिदं यदायुः सुस्तिन इन्द्रो गुद्धश्रवाः सुस्तिन पूषा विश्वदे वेदाः स्वस्ति नो अरिष्टान्ति गुड् अस्ति नूषा दण्डर् न विसर्गे स्वस्ति नूषा ओके स्वस्ति नूषा Sthi-nyat-pusha-vishya-vedaha Correct. So, Sthi-naf-pusha. Sthi-naf so, yes. becomes an F sound. Because the visarga followed by a pakara becomes an F sound. Sthi-nyat-pusha-vishya-vedaha Is that right? Good. Yeah. Okay. Who wants to try it next? <coughs> ृणुयाम देवाः भद्रं पश्येम अक्षिभिर्यजत्राः टु सेट् ईसिलि but when you say it together i say mm -hmm. bhadram pasye Pash. makshabhir pasye makshab not pasyema akshibhir okay okay like Padram rama pasyema is so, okay. rama anuja same, same same here also pasyema akshab okay okay bhadram okay. okay. pasyema akshavir yajatraha correct correct okay yeah ैरङ्गैः स्तुष्टुवागुम् स्वी व्यश्चेमदेवहितम् यदायुः स्वस्ति न इन्द्रो वृद्धश्रवाः स्वस्ति नः पूषा विश्ववेदाः स्वस्ति नस्ताक्षर्यो अरिष्टनेनिः स्वस्ति नु बृहस्पतिर्दधातु ओं शान्तिशान्तिः ओ भद्रं कर्णेऽभिृणुयामदेवाः भद्रं पश्ये सेकेण्ड् पश्ये मा चभिर्यत्रा sairai i'm sorry i read you know my a um no you you're correct so that's what i no no i can't read it well uh, okay it's coming up now you know i am reading from this cell phone so okay. it's going off okay. okay no problem okay okay okay obadram oh, karnebisrunuyam devaha badram pasye ma virjayatraha stirairangai ङ्गै स्तुस्तु वागं सस्तनूभिः व्यशे व्यशेमदेवहिदं यदातु स्वस्ति यद प्रवाह स्वस्ति न पूषा विश्वदेवाः स्वस्तिनस्ताक्ष्यो अरिष्टनेमिः स्वस्ति नो बृहस्प्रतीर्थम् शान्ति शान्ति शान्तिः ऐम्डिङ्ग् फ्रोम् दिस् ए ऐ डोट् नो हौ टु होल्ड् इट् दैट् Who wants to try next? Any? Yes, go ahead. Om Karne शृणुयाम देवाः भद्रं पच्ये माक्षत्राः चिरैदङ्गै सुष्ठुभागं स्वस्तनूभिः पशेम देवहितं यदायुः स्वस्ति न इन्द्रो वृद्धस्वाह पूजा विश्वभेदास्ति नो अरिष्टनेमिः स्वस्ति नो बृहस्पतिदधातु ॐ शान्ति शान्ति शान्तिः वेरि गुड् गो हेरि भद्रं कर्णेभिः शृणुयाम देवाः भद्रं माक्ष स्थिरैरङ्गै स्थिरैरङ्गै स्तुष्टु स्थिरैरङ्गैः स्तुष्टु वाकुं सस्तनूभिः यक्षेम देवहितम् यदायुः स्वस्ति न इन्द्रो वृद्धश्रवा स्वस्ति नः स्पूषा विश्ववेताः स्वस्ति नस्ताक्ष्यो अष्ट अरिष्टनेमीः स्वस्ति Om shanti shanti shanti. Good, very good. Who wants to try next? I can go. Okay, go Okay, ahead. शृणुयाम देवाः भद्रं पश्ये माक्षर् भद्रम् पश्येमाक्षभिर्यच्राः स्थिरैरङ्गैः सुष्टुवागम् स्वस्तनूभिः व्यशेव हितम् यतायुः स्वस्ति इन्द्रो वृद्धश्चाः स्वस्ति नः पूषा विश्ववेदाः स्वस्ति न स्तार्क्ष्यो अर्ष्टनेमिः Okay, very good. Okay, with this? Yeah. Yeah. okay, so uh, next week we'll start with uh, Mantra okay, this, uh, uh, we'll, uh, repeat this repeat the first मन्त्रपुष्पं ओके ऐ we'll start with Mantra शान्ति The Mandra Shmi's chance to stand it is at the end of most uh, pujas and things. They will stand it at the end. So. Yeah, it's very okay. time. Yeah, we'll hear it. Pardon? Yeah, I have heard it a lot. But. So this is our chance to learn it, right? <laughs> that's right. <laughs> yeah. so most of the Shanti Mandras comes in many places. So that's why you'll hear it all the time. There are like around... Uh, Ten Shanti Mantras you will hear many times, that uh, it depends on which uh, Veda and where it is it will come from, but uh, you will hear it. This is one famous one. Yeah, I think this one you taught last year, but I was not yes. here, that's why the two words were a little bit difficult for me to speak okay. it. Okay. So, so you were not here for the Ganabadi Adhara Shrishana? Uh, no, I was not there. I was in India at that time. Okay, yeah. okay so you are getting the learn it first time other people are learning a second time so mm -hmm. okay but i listened to your recording but the splitting of the word was difficult that pasyema kshebir pragra and then the more things there yeah, that's why the thing is when you split it it is easier to say than when you put it together it's much easier to say it. okay so so eleven and aksha comes it's a dry sir little bit difficult yeah. letters yeah There's also come Sustinastarkshio, okay? This is uh, that, it's a kshap, it's a yaa and a raa. Again, yaa, again, it's a kshap there, yaa. Yeah, they've got strong letters. Okay, so we will stop here for the day and then uh, I'll send the recording. And next week we'll uh, start with uh, this one for Mantra Prashma. लोकाः समन्ताः सुखिनो भवन्तु लोकाः समन्ताः सुखिनो भवन्तु ोकाः समस्ताः सुखिनो भवन्तु ॐ शान्ति शान्ति शान्ति श्री ॐ नमः श्रीगुरुभयो नमः